श्रीमद्भागवत् महापुराणम् एकादश स्कन्ध अथ चतुर्विंशोऽध्यायः साङ्ख्ययो श्रीभगवानुवाच अथ ते सम्प्रभक्ष्यामि साङ्ख्यम् पूर्वै विनिश्चितम् यद्विज्ञाय पुमान् सद्यो जह्यात्मैकल्पिकम् भ्रमम् आसीद् ज्ञानमथो शर्थ एकमेवाविकल्पितम् यदा विवेकनिपुणा आदौ कृतियुगे युगे तन्माया तन्मायाफलरूपेण केवलम् निर्विकल्पितम् वाङ्मनोगोचरम् सत्यम् द्विधा सम्भवद्भ्यत् तयोरेकतरो हरस प्रकृतिशोभयात्मिका ज्ञानम् तन्यतमो भाव पुरुषशोभिधीयते तमोरजसत्त्वमिति प्रकृतेरभुवन्गुणाः मया प्रक्षोम्यमाणाया पुरुषानोमतेन च तेभ्यः सम्भवः सत्वम् महान् सत्रेण संयुतः ततो विकुर्वतो जातोऽहङ्कारो यो विमोहनः व्यकारिकस्तैजसश्च तामश्चेत्यहम् त्रिवेन् तन्मात्रेन्द्रियमनशाम् कारणम् चिद्यन्मयः अर्सत्तन्मातृकाजज्ञे तामसादिन्द्रियाणि च तैजसाग्देवता आसन्नेकादश्च वैकृतात् मया सञ्चोदिता भावाः सर्वे संहृत्यकारिणः अन्नमुत्पादयामासुर्ममायतनुमुत्तमम् तस्मिन्नहं शमभवमण्डे शरीरसंस्थितौ मम्नाभ्या मम्नाभ्यामभून्पद्मम् विस्वाख्यम् तत्रि चात्मभू सोऽशि यत्तपसा योक्तो रजसा मनुग्रहात् लोकान्सपालान्विश्वात्मा भूर्भुव स्वरिति त्रिधा देवानामोक आसीत् स्वभूतानाम् च भुवपदम् मर्त्यादीनाम् च भुर्लोकसिद्धानाम् त्रीतयात् परम् अथोम् अधोसुराणाम् नागानाम् भूमे रोकोऽसि यत्प्रभु त्रिलोक्याम् गतिः सर्वा कर्मणाम् त्रिगुणात्मनाम् योगस्य तपसस्यैव न्यासस्य गतियो मलाः महर्जनस्तपः सत्यम् भक्तियोगस्य मद्गतिः मया कालात्मना धात्रा कर्मयुक्तमिदम् जगन् गुणप्रवाह जन्त। निमध्यते अणुर्बृहत्कृशः योजो भावः प्रसिध्यते सर्वोऽप्युभे संयुक्तः प्रकृत्या पुरुषेण च यस्तु यस्यादिरन्तश्च स वै विकारो व्यवहारार्थो यथा तेजस पार्थिवाः यदुपादाय पूर्वस्तु भावो विकुरुते परम् आदिरन्तो यदा यस्य तत्सत्यम् अभिधीयते प्रकृतिर्ह्यस्योपादानाम् आधारपुरुषपर सतोऽभिव्यञ्जककालो कालो तत्रितयम् तुहं सर्ग प्रवर्तते तावत् पौर्वापर्येण नित्यशः महान् गुणविसर्गार्थ स्थित्यन्तो यावदेक्षणम् विराण्मया साध्यमादो लोककल्पविकल्पकः पञ्चत्वाय विशेषाय कल्पते भुवनैः स अन्ये प्रलीयते मर्त्यम् अन्नम् धानासु धाना भूमौ प्रलीयन्ते भूमिगन्धे प्रलीयते अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे लीयते ज्योतिषीरसो ज्योतिरूपे प्रलीयते रूपम् वाजौ च स्पर्शे लीयते सोऽपि चाम्बरे अम्बरम् शब्दतन्मात्र इन्द्रियाली स्वयोनिषु यो निर्वैकारिके लीयते मनसिश्वरे शब्दो भूतादिमप्येते भूतादिर्महति प्रभो स लीयते महान् स्वेषु गुणेषु ते व्यक्ते सम्प्रलीयन्ते तत्काले लीयते कालो मायामये जीवे जीव आत्मनि मय्यजे आत्मा केवल आत्मस्थो विकल्पायम् पायलक्षणः पाये एवमन्वेक्ष्यमाणस्य कथं वैकल्पिको भ्रमः मनसोऽषिधि तिष्ठेत व्योम्निवार्कोदये तपः एष साङ्ख्यविधि प्रोक्त संशयग्रन्थिभेदनः प्रतिलोमानुलोमाभ्यां परावर्दृशा मया इति श्रीमद्भागुते महापुराणे पारहंश्यां सहितायाम् एकादशस्कन्धे चतुर्विंशोऽध्यायः